गर्गसंहिता खण्डं वन् गोलोकखण्डम् अध्यायम् वन् श्रीकृष्णमाहात्म्यवर्णनम् ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं तदो जयमुदीरयेद् शरद्विकजपङ्कज श्रियमतीव विद्वेषकं मिलिन्दमुनिसेविदं कुशिल कुलिश कञ्चचिह्नावृतं स्फुरत्कनकनूपुरं दलितभक्ततापत्रयं चलद्युदिपदद्वयं हृदि दधामि राधापदेः वदनकमल निर्यद्यस्य पीयूषमद्यं पिबति पी जनवरोऽयं पादु सोऽयं गिरं मे बदरवनविहारसत्यवत्या कुमारः प्रणददुरिदहारशार्ङ्गधन्वावतारः कदाचिन्नयि मिषारण्ये श्रीगर्गोज्ञानिनां वरः आययौ शौनकम् द्रष्टुं तेजस्वी योगभास्करः तं दृष्ट्वा सहसोद्धाय शौनको मुनिभिः सह पूजयामासपाद्याद्यैरुपचारैर्विधानदः श्रीशौनक उवाच सदाम् पर्यटनं धन्यम् गृहिणां शान्तये स्मृदम् नृणामन्तस्तमोहारि साधुरेव न भास्करः तस्मान्मे हृदि सम्भुदं सन्देहं नाशय प्रभो कथिता श्रीहरेर्विष्णोरवतारो भवत्यलम् श्रीगर्ग उवाच साधु पृष्ठं त्वया ब्रह्मन् भगवद्गुणवर्णनं शृण्वतां गददां यद्वै पृच्छताम् विदनो विदनोदिशम् अत्रैवोदाहरन्तीममितिहासम् पुरातनम् यस्य श्रवणमात्रेण महादोषप्रशाम्यदि मिथिलानगरे पूर्वम् बहुलाश्वप्रदातवान् श्रीकृष्णभक्तशान्दात्मा बभूव निरहङ्कृतिः अम्बरादागदम् दृष्ट्वा नारदम् मुनिसत्तमम् सम्पूज्य चासने स्थाप्य कृताञ्जलिरभाषत श्रीबहुलाश्व उवाच यो पुरुषो भगवान् प्रकृतेः परः कस्मात्तनुम् समाधत्ते तन्मे ब्रूहि महामदे श्री नारद नद उवाज गोसाधुदेवतादेवाय वै तनुंधत्ते सरिसाक्षा भगवा यस्वीलाया मोहिद न दृष्ट्वाच तन्माया मुमुहुस् संशय श्रीबहुलाश्व उवाच कथिता श्रीहरेर्विष्णोरवतारो भवत्यलम् साधूनां रक्षणार्थं हि कृपया वद प्रभो श्रीनारद उवाच अंशां शों शस्तथा व्यासाद्यैश्च स्मृदषष्ठपरिपूर्णतमस्वयम् अम्षा, अंशांशस्तु मरीच्यादिरंशा ब्रह्मादयस्तथा कलाकपिलकूर्माद्या आवेश भार्गवादयः पूर्णो नृसिंहो रामश्चेदद्वीपाधिपो हरिः वैकुण्ठोऽपि तथा यज्ञो नरनारायणस्मृतः परिपूर्णतमसाक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपतिर्गोलोके धां कार्याधिकारं कुर्वन्तः सतं शास्ते प्रकीर्तिताः तत्कार्यभारम् कुर्वन्तस्ते श्यां च विदिता प्रभो येषामन्तर्गतो विष्णुः कार्यम् कृत्वा विनिर्गतः नानावेषावतारांश्च विद्धिराजन्मः मदे धर्मम् विज्ञाय कृत्वा यः युगे युगे वर्धमानसौवतारक्फला हरेः स दुर्व्योः भवेद्यत्र दृश्यन्ते चरसानव अधः परं च वीर्याणि सदुपूर्णप्रकथ्यते यस्मिन् सर्वाणि तेजांसि विलीयन्ते स्वतेजसि तम् वदन्ति परे साक्षात् परिपूर्णतमम् स्वयम् पूर्णस्य लक्षणम् यत्र तम् पश्यन्ति पृथक् पृथक् भावेनापि जनाः सोऽयम् परिपूर्णतमः स्वयम् परिपूर्णतमः साक्षात् श्रीकृष्णो नान्य एव एककार्यार्थमागत्य कोटिकार्यम् चकारः पूर्णः पुराणः पुरुषोत्तमोत्तमः परात्परो यः पुरुषः स्वयं सदानन्दमयं कृपाकरं कृपाकरम् गुणाकरम् तम् शरणम् व्रजाम्यहम् श्रीगर्ग उवाच तच्छ्रुत्वाकर्षितो राजा रोमाञ्ची प्रेमविह्वलः प्रमृश्य नेत्रे श्रुपूर्णे नारदम् वाक्यमब्रवीद श्रीबहुलाश्व उवाच परिपूर्णतमः साक्षात् श्रीकृष्णो हेन हेतुना आगदो भारते खण्डे द्वारवत्यां विराजदे तस्य गोलोकनाथस्य गोलोकं धामसुन्दरम् कर्माण्यपरिमेयानि ब्रूहि ब्रह्मन् बृहन्मुने यदा तीर्थाटनं कुर्वञ्चद जन्मतपः परं तदा सत्सङ्गमित्याशु श्रीकृष्णं प्राप्नुयान्नरः श्रीकृष्णदासस्य च दासदासः कदा भवेयं मनः सार्द्रचित्तः यो दुर्लभो देववरैः परात्मा समे कथं गोचर आदिदेवः धन्यस्त्वम् राजशार्दूल श्रीकृष्णेष्ठो हरिप्रियः तुभ्यं च दर्शनम् दातुम् भक्ते श्रोत्रागमिष्यति त्वम् नृपम् श्रुतदेवम् च द्विजदेवो जनार्दनः स्मरत्यलम् द्वारकायामहो भाग्यम् सदामिह यदि श्रीगर्गसंहितायाम् गोलोकखण्डे नारदबहुलाश्वसंवादे कृष्णमाहात्म्यवर्णनम् नाम प्रथमोऽध्यायः ओम् अध्यायम् टु श्रीगोलोकधामानिवर्णनम् जिह्वाम् लब्ध्वापि ह्यः कृष्णम् कीर्तनीयम् न कीर्तयेत् लब्ध्वापि मोक्षनिःश्रेणिं सनारोहदि दुर्मतिः अधदे सम्प्रवक्ष्यामि श्रीकृष्णागमनं भुवि अस्मिन् वाराहकल्पे वै वा यद्भूतं तच्छृणुप्रभो पुरादानवदैत्यानां नराणां खलु भूभुजां भूरिभारसमाक्रान्ता पृथ्वी गोरूप धारिणी अनाथवद्रुदन्तीव वेदयन्ती निजव्यधाम् कम्बयन्ती निजम् गात्रम् ब्रह्माणम् शरणम् गदा ब्रह्माधाश्वास्यताम् सद्य सर्वदेवगणायर्वृतः शङ्करेण समम् प्रागाद्वैकुण्ठम् मन्दिरम् हरेः न त्वा चद्भुजम् विष्णुम् स्वाभिप्रायम् जगादः अधोद्विग्नम् देवगणम् श्रीनाथप्राहतम् विधिम् श्रीभगवानुवाच कृष्णम् स्वयम् विगणिताण्डपदिम् परेशम् साक्षादखण्डमदिदेवमदीवलीजम् कार्यं कदापि न भविष्यदि यम् विना हि पदमव्ययं तस्य विशदम् पदमव्ययम् त्वम् श्रीब्रह्मोवाच त्वपरम् न जानामि परिपूर्णतमम् स्वयं यदि योऽन्यस्तस्य साक्षाल्लोकम् दर्शय नप्रभो प्रभो श्रीनारद उवाच युत्युक्तोऽपि हरिपूर्ण सर्वैर्देवगणैः सह पदवीं दर्शनां पदवीं दर्शयामास ब्रह्माण्डशिखरोपरि वामपादाङ्गुष्टनखभिन्नब्रह्माण्डमस्तके श्रीवामनस्य विवरे ब्रह्मद्रवसमाकुले जलयानेन मार्गेण बहिस्ते निर्ययुःसुराः कलिङ्गबिम्बवच्छेदम् ब्रह्माण्डं ददृशुस्त्वधः इन्द्रायणफलानिव लुन्त्यन्यानि वै जले विलोक्य विस्मिता सर्वे बभूवश्चकिता इव कोडिशो योजनोर्ध्वं वै पुराणामष्टकम् गदाः दिव्यप्राकाररत्नादिद्रुमवृन्दमनोहरम् तदूर्ध्वम् ददृश्युर्देव विरजायास्तडम् शुभम् तरङ्गिदं क्षौम शुभं शोभानैर्भास्करम् परं तम् दृष्ट्वा प्रचलन्तस्ते तत्पुरं जग्मुरुतमम् असङ्ख्यकोटिमार्ताण्डज्योतिषाम् मण्डलम् महद दृष्ट्वा प्रदाडिताक्षास्ते तेजसाधर्षितास्थिताः नमस्कृत्वाथ तत्तेजो दद्भ्यौ विष्णुवाज्ञया विधिः तज्ज्योतिर्मण्डले पश्यत् सकारम् धाम शान्तिमद तस्मिन् महाद्भुतं दीर्घं मृणालधवलम् परम् सहस्रवदनं शेषं दृष्ट्वा नेमुत्सुरास्तदः तस्योत्संगे महालोको गो लोको लोकवन्दितः यत्र कालकलयदामीश्वरो धाममानिनां राजन्नप्रभावेन्माया मनश्चित्तं मधी अहम् न विकारो विशत्येव नमहांश्च गुणाकुतः तत्र कन्दर्पलावण्या श्यामसुन्दरविग्रहाः द्वारिगन्तुं चाभ्युदिदा न्यषेधन् कृष्णपार्षदाः श्रीदेवा ऊचुः लोकपालावयं सर्वे ब्रह्म विष्णु विष्णुमहेश्वरः श्रीकृष्णदर्शनार्थाय चक्राद्या आगदा इह श्रीनारद उवाच तच्छ्रुत्वा तदभिप्रायम् श्रीकृष्णाय सखी जनः ऊजुर्देवप्रदिहारा गत्वा चान्द्रपुरम् परम् तदा विनिर्गता काचिच्छतचन्द्रानना सखी पीदाम्बरा वेत्रहस्ता सा पृच्छध्वाञ्छितम् सुरान् श्रीशतचन्द्राननोवाच कस्याण्डस्याधिपदेवा यूयम् सर्वे समागताः वदता शु गमिष्यामि तस्मै भगवतेह्यहम् श्रीदेवा ऊचुः अहो अण्डान्युदान्यानि नास्माभिरुदर्शितानि च एकमण्डं प्रजानि मोधोपरं नास्ति नः शुभे श्रीशतचन्द्राननो उवाच ब्रह्मदेवलुढन्दीहकोडिशो ह्यण्डराशयः तेषां यूयं यथा देवास्तथाण्डेण्डे पृथक् कदानात्रसमागदाः नाम ग्रामं न ना जानीध जडबुद्ध्या प्रहृष्य द्वे ब्रह्माण्डमेकम् जानन्ति यत्र जादास्तथा जनः मशका च यथान्दस्था औदुम्बरफलेषु च औदुम्बरफलेषु वै श्रीनारद उवाच उपहास्यम् गदा देवा युद्धम् तूष्णीम् स्थिताः पुनः शकितानिव तान् दृष्ट्वा विष्णुर्वचनमब्रवीद श्रीविष्णुरुवाच यस्मिन् अण्डे पृश्निगर्भोऽवतारोऽभूत् सनातनत्रिविक्रमनखोद्भिन्ने तस्मिन् अण्डे स्थिता अंडे श्रीनारद उवाच तच्छ्रुत्वा तं च संश्लाह्य शीघ्रमन्दपुरं गदा पुनरागत्य देवेभ्योऽप्याज्ञां दत्त्वा गदाः पुरम् अथ देवगण सर्वे गोलोकं ददृश्युः परं तत्र गोवर्धनो नाम विराजदे वसन्तमानिनीभिश्च गोपीभिर्गोगणयुर्वृदः कल्पवृक्षलता सङ्खैरासमण्डलमण्डितः यत्र कृष्णा न दिश्यामा तोलिकाकोडिमण्डिता वृन्दावनं भ्राजमानं दिव्यद्रुमलताकुलं चित्रपक्षिमधुव्रतैर्वंशी वडविराजितम् पुलिनेशीतले वायोर्मन्दगामी वहत्यलं सहस्रदलपद्मानां रजो विक्षेपयन्मुहुः मध्ये निजनिगुञ्जोऽस्थित्वा त्रिंशद्वनसंयुधः प्राकारपरिकायुकुतोरुणाक्षयवडाजिरः सप्तधा पद्मरागाग्राजिरकुण्ड्यविभूषितः कोडीन्दुमण्डलाकारैर्विधानैर्गुरिकाद्युदिः पदत्पदाकैर्दिव्याभै पुष्पमन्दिरवर्त्मभिः जातभ्रमरसङ्गीतो मत्त बर्हि बालार्ककुण्डलधरा शतचन्द्रप्रभास्त्रियः स्वच्छन्दगदयो रत्नैः पश्यन्ति यः सुन्दरम् मुखम् रत्नाजिरेषु धावन्त्यो आरकेयूरभूषिताः क्वणन्नूपुर किङ्गिण्यश्चूडा मणिविराजिताः कोडिशकोडिशो गावो द्वारि द्वारि मनोहराः श्वेदपर्वतसङ्घर्षदिव्यभूषणभूषिताः पयस्विन्यस्तर्तरुण्यश्च पयन्विन्य पयस्विन्यस्तरुण्यश्च शीलरूपगुणैर्युदाः स वत्स पीतपुच्छाश्च व्रचन्त्यो भव्यमूर्तिकाः खण्डामञ्जीरः सम्राह्वा किङ्गिणीजालमण्डिताः हेम शृङ्ग्यो हेमतुल्यहारमालास्फुरत्प्रभाः पाडलाहरिदास्ताम्राप्री दास्यामा विचित्रिताः धूम्राकोकिलवर्णाश्च यत्र भावस्त्वनेकधा समुद्रवद्दुग्धदाश्च तरुणीकरचिह्निताः पुरङ्गवद्विलङ्कद्भिर्गोवत्सैर्मण्डिताशुभाः इतस्तदश्चलन्तश्च गोगणेषु महावृषाः दीर्घ पन्थर शृङ्गाढ्या यत्र धर्मधुरन्तराः गोपाला श्यामा वंश्रीधराः परा कृष्णलीलां प्रगायन्तो रागैर्मदनमोहनैः युद्धं निज पुञ्जं तं नत्वा मध्ये गदासुराः ज्योतिषां मण्डलम् पत्मं सहस्रदलशोभितम् तदूर्ध्वं षोडशदलं तदोष्टदलपङ्कजम् तस्योपरि स्फुरदीर्घम् सोपानत्रयमण्डितम् सिंहासनम् परं दिव्यम् कौस्तुभैः कथितम् शुभैः ददृश्युर्दैवदः सर्वा श्रीकृष्णम् राधयायुतम् दिव्यैरष्टसखी सङ्खैर् मोहिन्यादिभिरन्वितं श्रीधामाद्यै सेव्यमान मष्टगोपालसेवितैः हंसाभैर्व्यजनान्दोल चामरैर्वज्रमुष्टिभिः कोडिचन्द्रप्रदीकास्यै सेवितं चक्रकोडिभिः श्रीराधिकालङ्कृदवाम बाहुम् स्वच्छन्दवक्रीकृतदक्षिणाङ्घ्रिम् वंशीधरम् सुन्दरमन्दहासम् भ्रूमण्डलामोहिदकामराशिम् कनप्रभम् पद्मदलायुतेक्षणम् प्रलम्बबाहुम् बहुपीतवात्सम् वृन्दावनोन्मत्तमिलिन्दशब्दैर्विराजितम् श्रीवनमालया हरिम् कला काञ्जीकलाकङ्गण नो बुरद्युदिम् महोज्वलस्मिदं। श्रीवत्सरत्नोत्तमकुन्दलश्रियम् किरीडहाराङ्गदकुण्डलद्विषम् दृष्ट्वा तमानन्दसमुद्रमग्नवत् प्रहर्षिता चाश्रु कलाकुलेक्षणाः तदसुराप्राञ्चलयो नदानना नेमुर्मुरारिम् पुरुषं परायणम् इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे श्रीगोलोकधामवर्णनं नामद्वितीयोऽध्यायः ओम् अध्यायम् आगमनोद्योगवर्णनम् मुने देवा महात्मानं कृष्णं दृष्ट्वा परात्परम् अग्रे किं चक्रिरे तत्र तन्मे ब्रूहि कृपाम् कुरु नारद उवाच सर्वेषाम् पश्यताम् तेषाम् वैकुण्ठोऽपि हरिस्ततः उद्धायाष्टभुजसाक्षात् लीनोऽभूत् कृष्णविग्रहे तदैव चाग्रदपूर्णो नृसिंहश्चण्डविक्रमः कोडिसूर्यप्रदीकास्यो लीनोऽभूत् कृष्णतेजसि रथे लक्षहये शुभ्रे स्थितश्चागतवांस्ततः श्वेतद्वीपाधिपो भूमा सहस्रभुजमण्डितः श्रियायुक्तस्वायुधाढ्यपार्षदैपरिसेविदः सम्प्रलीनो बभूवाशु सोऽपि श्रीकृष्णविग्रहे तदैव चागतसाक्षाद्रामो राजीवलोचनः धनुर्बाणधरसीदाशोभिदोभ्रादृभिर्वृतः दशकोट्यर्कः सङ्काश्ये चामरयुर्दोलिते रथे असङ्ख्यवानरेन्द्राड्ये लक्षचक्रधनस्वने लक्षध्वजे लक्षभजे शादकौम्भे स्थितस्तदः श्रीकृष्णविग्रहे पूर्णः सम्प्रलीनो बभूवः तदैव चाग्रदसाक्षाद्यज्ञो नारायणो हरिः प्रस्फुरत्प्रलयाडोपज्वलदग्निशिखोपमः प्रत्यज्यो निर्मये दृश्यो दक्षिणाढ्यसुरेश्वरः सोऽपि लीनो बभूवासु श्रीकृष्णे श्यामविग्रहे तदा चागतवान् साक्षान्नरनारायणप्रभुः चतुर्भुजो विशालाक्षो मुनिवेशोघनद्युदिः तडित्कोडिजडाजोडप्रस्फुरद्दीप्तिमण्डलः मुनीन्द्रमण्डलैर्दिव्याैर्मण्डितो खण्डितव्रदः सर्वेषाम् पश्यताम् तेषामाश्चर्यमनस्सा नृप सोऽपि दीनो बभू वाशु श्रीकृष्णे श्यामसुन्दरे परिपूर्णतमम् साक्षाश्रीकृष्णं च स्वयम् प्रभुं ज्ञात्वा देवास्तुतिं चक्रुः परं विस्मयमागताः देवाऊचुः कृष्णाय पूर्णपुरुषाय परास्पराय यज्ञेश्वराय परकारणकारणाय राधावराय परिपूर्णतमाय साक्षाद्गोलोकधामधिषणाय नमः परस्मै योगेश्वरा किल वदन्तिमः परम् त्वाम् तत्रैव सात्वदमनाकृतविग्रहम् च अस्माभिरद्यविदिदं यददोध्वयन्ते तस्मै नमोस्तु महसां पदये परस्मै व्यङ्ग्येन वा नहि लक्षणया कदापि स्फोटेन यच्च कवयो न विश्यन्ति मुख्याः प्रकृते परं च त्वाम् ब्रह्म निर्गुणमलम् शरणम् व्रजामः त्वाम् ब्रह्म केचिदवयन्ति परे च कालम् केचित् प्रशान्तमपरे भुवि कर्मरूपम् पूर्वेच च योगमपरे किल कर्तृभावमन्योक्तिभिर्नविधिदम् शरणम् गदा स्मः श्रेयस्करीम् भगवदस्तव पादसेवाम् चित्वा धतीर्थ यजनादि तपश्चरन्ति ज्ञाने नये च विदिदा बहुविघ्नसङ्घैः सन्धाडिदा किमु भवन्ति न दे कृदार्थाः विज्ञाप्यमद्य किमुदेव अशेषसाक्षी यत्सर्वभूतहृदयेषु विराजमानः देवैर्नमद्भिरमलाश्रय मुक्तदेहैस्तस्मै नमो भगवते पुरुषा पुरुषोत्तमाय जोराधिकाहृदयसुन्दरचन्द्रहारश्रीगोपिकानयनजीवनमूलहारः गोलोकधामधिषणध्वज आदिदेवः सत्त्वं विपत्सु विबुधान् परिपाहि पाहि वृन्दावनेश गिरिराजपदे व्रजेश गोपालवेषकृतनित्यविहारलील राधापदे श्रुतिधराधिपदे धराम् त्वम् गोवर्धनोद्धरण उद्धरधर्मद्धाराम् श्रीनारद उवाच द्युत्युक्तो भगवान साक्षात् श्रीकृष्णो गो गोकुलेश्वरः प्रत्याहप्रणदान् देवान् मेघगम्भीरया गिरा श्रीभगवानुवाच हे सुरज्यष्टके शम्भो देवाशृणुदमध्वजः यादवेषु च जन्यध्वमं शैस्त्रीभिर्मदाज्ञया अहम् च अवतरिष्यामि करिष्यामि भुवो भविष्यामि यद्धो कुले वेदामेव जनम् विप्रामुखम् गावस्तनुर्मम अंगानि देवता यूयम् साधवो ह्यसवो हृदि युगे युगे च बाध्येद यदा पाकण्डिभिर्जनैः धर्मक्रदुर्दया साक्षात् तदात्मानम् सृजाम्यहम् श्री नारद उवाच इत्युक्त्युक्तवन्दं जगदीश्वरं हरिं राधापदिप्राणवियोगविह्वला दावाग्निना दुःखलदेवमूर्च्छिदा श्रोकं परो माञ्चितभावसंवृता श्रीराधोवाच भुवो भरं हर्तुमलं व्रजेर्भुवं कृतं शपथम् शृणो त्वतः गदे त्वयि प्राणपदे च विग्रहम् कदाचिदत्रैव न धारयाम्यहम् यदा त्वमेवं शपथं न मन्यसे द्वितीयवारं प्रददामि वाक्पथं प्राणोद्धरे गन्तुमदीव विह्वलः कर्पूरधूमणवद्गमिष्यति श्रीभगवानुवाच त्वया सह गमिष्यामि माशोगं कुरु राधिके हरिष्यामि भुवो भारं करिष्यामि वचस्तव श्रीराधिकोवाच यत्र वृन्दावनं नास्ति यत्र नो यमुना नदी यत्र गोवर्धनो नास्ति तत्र मेन मनःसुखम् श्रीनारद उवाच वेदनागक्रोशभूमिम् स्वधाम्नः श्रीहरिस्वयम् गोवर्धनम् च यमुनाम् प्रेषयामास भूपरि तदा ब्रह्मा देवगणैर्नत्वा नत्वा पुनः पुनः परिपूर्णतमम् साक्षात् समु श्रीकृष्णम् समुवाचः श्रीब्रह्मोवाच अहम् कुत्र भविष्यामि कुत्र त्वम् च भविष्यसि ये कुत्र भविष्यन्ति कैर्गृहै कैश्चनामभिः श्रीभगवानुवाद वसुदेवस्य देवक्याम् भविष्यामि परस्वयं रोहिण्याम् मत्कलाशेषो भविष्यदि श्रीसाक्षा दृक्मिणी भैष्मी शिवा जाम्बवदी तथा सत्या च तुलसी भूमौ सत्यभामा वसुन्धरा दक्षिणा लक्ष्मणा चैव कालिन्दीविरजा तथा भद्रा ह्रीर्मित्रविन्दा जाह्नवी पावनाशिनी रुक्मिण्याम् कामदेवश्च प्रद्युम्न यदि विश्रुदः भष्यदि न सन्देहस्त भविष्य नंदो द्रोणो वसु साक्षा यशोद साधरा स्मृद वृषभासु चंद्रस् त्यादी भूमौ कीर्तिरिख्यादा तै राधा भविष्य सदा रासं करिष्यामि गोपीभिर्व्रजमण्डले इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे आगमनोद्योगवर्णनं नाम तृतीयोऽध्यायः ओम् अध्यायम् फोर् नन्दगोपीपरिचय नन्दोपनन्दभवने श्रीदामा सुबलः सखा स्तोककृष्णोऽर्जुनोंशश्च नवनन्दगृहे विधे विशालार्षभतेजस्वी देवप्रस्तवरुधपः भविष्यन्ति सखायो मे व्रजे षड्वृषभनुषु श्रीब्रह्मोवाच कस्य वै नन्दपदवी कस्य वै वददेवपदे साक्षादुपनन्दस्य लक्षणम् श्रीभगवानुवाच गा पालयन्ति कोषेषु सदा गोवृत्तयोनिष्यं ते गोपालामया प्रोक्तास्तेषां त्वं लक्षणं शृणु नन्दप्रोक्तस्स गोपालैर्नवलक्षगवांपदिः उपनन्दश्च कदितः पञ्चलक्षगवांपदिः वृषभानुःस उक्तो यो दशलक्षगवां पदिः गवां कोडिर्गृहे यस्य नन्दराजस्य एव हि यस्य कॉट्य गवा वृषनुवरस्ृश्य्रजे दव दो सुचंद्रो द्रोण एव सर्वक्षणलक्ष्यौ भविष्यदः भविष्य शतचंद्रान सुंदर सुवास कोपीनां मद्व्रजे रम्ये शदयूथो भविष्यति श्रीब्रह्मोवाच हे दीनबन्धो हे देवजगत्कारणकारण यूथस्य लक्षणं सर्वं तन्मे ब्रूहि परेश्वर श्रीभगवानुवाच अर्बुदं दशकोटीनां मुनिभिक्कथितं विधे दशाबुद् ये सोध प्रपथ्य गोलोकवासी कचि कालिका शृंगारकिका सोपकार पार्षदाख्या काीवृनपलिका गोवर्धननिवासिन्यः काश्चित् कुञ्चभिधायिकाः मेनिकुञ्च निवासिन्यो भविष्यन्ति व्रजे मम एवं च यमुना यूधो जाह्नवी यूध एव रमाया मधुमाधव्या विरजाया तथैव च ललिताया विशाखाय मायायूधो भविष्यति एवं हृष्टसखीनां च सखीनां किल षोडश द्वात्रिंशच्च द्वात्रिं षच्च सखीनां च यूधा व्रजे विधे शतरूपा ऋषिरूपा मैथिलापोशलास्तथा अयोध्यापुरवासिन्यो यत्र सीता पुलिन्तकाः या सा मया वरो पूर्वे पूर्वे युगे युगे तासां यूधा भविष्यन्ति गोपीनां मद्व्रजे शुभे श्रीब्रह्मो वाचा येधा कदम्ब्रजे भाव्याकेन पुण्येन कैर्वरैः दुर्लभं हि पदं तासां योगिभिः पुरुषोत्तम श्रीभगवानुवाच श्वेतद्वीपे च भूमानं श्रुदयस्तुष्टु गुः परम् उश्यतीभिर्गिराभिश्च प्रसन्नोऽभूत् वरं वृणीद यूयं वै यन्मनो वञ्चितं महद येषां प्रसन्नोऽहं साक्षात् तेषां किं दुर्लभं हि तद श्रुतय ऊचुः वाङ्मनो गोचरातीदं तदो न ज्ञायदेतु तद् आनन्दमात्रमिति यद्वदन्तीक पुराविदः तद्रूपम् दर्शयास्मागम् यदि देयोवरोहिनः श्रुत्वै तद्दर्शयामास स्वं लोकम् प्रकृतेः परम् केवलानुभवानन्दमात्रमक्षरमव्ययम् यत्र नामवनं नामवनम् कामदुःखैर्द्रुमैः मनोरमनिकुञ्जाढ्यं सर्वर्तुसुखसंयुधम् यत्र गोवर्धनो नाम सुनेरधरीयुदः रत्नधातुमय श्रीमान् सुपक्षिगणसंवृद्धः यत्र कालिंदी निर्मलपानीया कालिन्दीसरिताम्बरा रत्नभक्धो भयतडीहंसपद्मादिसङ्कुला नानारासरसोन्मत्तं यत्र गोपीकदम्बरम् तत्कदम्पकमध्यस्तकिशोराकृतिरच्युतः दर्शयित्वा च ताप्राहब्रूद किम् करवाणि वः दृष्टो मदीयलोकोऽयं नास्ति परं वरम् श्रीसृदय उवाच कन्दर्पकोटिलावण्ये त्वयि कामिनी भावमासाध्य स्मरक्षिप्तान्यसंशयहम् यया त्वल्लोकवासिन्यकामतत्त्वेन गोपिकाः भजन्दिरमणं मत्वा चिकीर्षाजनिनस्तथा श्रीहरिरुवाच दुर्लभो युष्माकं तु मनोरथः मैनुमोदित सम्यक सत्यो भवती आगामी विजिचा सृष्ट्या कल सारस्वते व्रजे गोप्यो प्रधिव्यां पृथिव्यां क्षेत्रे माधुरे मम मा वृंदावने वृंदवने प्रेयान्वो रासमण्डले जातधर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकं मयि सम्प्राप्य सर्वा हि कृतकृत्या भविष्यथ श्रीभगवानुवाद ताश्च कोप्यो भविष्यन्ति पूर्वकल्पवरान् मम अन्यासां चैव गोपीनां लक्षणं शृणु तद्विधे सुराणां लक्षणार्धाय राक्षसानां वधाय च त्रयधायां रामचन्द्रो भोद्वीरो दशरथात्मजः सीता स्वयं वरं गत्वा धनुर्भङ्गम् चकारसः उवाहज जान, जानकीं सीतां रामो राजीवलोचनः तं दृष्ट्वा मयिभिलसर्वः पुरन्द्रियो मुमुर्विधे रथस्यूचुर्महात्मानं भर्ता नो भव हे प्रभो तामाहरा कवेन्द्रस्तु मा शोकं कुरुद स्त्रियः द्वापरान्धे करिष्यामि भवतीनां मनोरथं दानं तपः श्रद्धया परया भक्त्या व्रजेगोभ्यो भविष्यथ इति ताभ्यो वरं दत्त्वा श्रीरामः करुणानिधिः कौसलान् प्रययौ धन्वी तेजसा जिदभार्गवः मार्गे च कौसलानार्यो रामं दृष्ट्वा दृष्ट्वादिसुन्दरं मनसा ववृलेतं वैपदिं कन्दर्पमोहनम् मनसा विवरं रामो ददौ ताभ्यो ह्यशेषविद मनोरथं करिष्यामि व्रजे गोप्यो भविष्यध आगतं सीतया सार्धं सैनिकैः सहितं रकुम् अयोध्यापुरवासिन्यश्रुत्वा द्रष्टुं समाययुः वीक्ष्यतं मोहमापन्ना प्रेम विह्वलाः ते पुस्तपस्ताः सरयूतिरे रामधृतव्रताः आकाशवागभूतासाम् द्वापरान्दे मनोरथः भविष्यदिनः सन्देहकालिन्दीतिरजेवने पिदौर्वाक्याद्यदा रामो दण्डकाख्यं वनम् गदः चचारसीदया लक्ष्मणेन धनुष्मदा गोपालकोपासख सर्वे दण्डकारण्यवासिनः ध्यायन्तः सततं मां वैरासार्धं ध्यानतत्पराः येषामाश्रममासाध्यधनुर्बाणधरो युवा तेषां ध्याने गदो रामो जडामुकुडमण्डितः अन्याकृतिं पेदम् वीक्ष्यपरं विस्मितमानसाः ध्यानादुद्धाय ददृशु कोटिकन्दर्पसन्निभम् ऊचुस्तेयं तु गोपालो वंशी विना प्रभुः युद्धं विचार्य मनसा नेमुश्चक्रुस्तुतिं वरं वृणीदमुनय श्रीरामस्तानुवाचः यथा सीता तथा श्रीराम उवाच यथा हि लक्ष्मणोभ्रादा तदा प्रार्थ्यो वरो यदि अद्यैव सभलो भाव्यो भवद्भिर्मप्रसङ्गदः शीतोपमेयवाक्येन दुर्कडो दुर्लभो वरः एकपत्नीव्रतोऽहं वै मर्यादापुरुषोत्तमः तस्मात् मध्वरेणापि द्वापरान्धे भविष्यथ मनोरथं करिष्यामि भवतां वाञ्छिदं परम् इति दत्त्वा वरं राम रामस्ततः पञ्चवडीं गदः पर्णशाला समासाद्य वनवासं चकारः तद्दर्शनस्मररुजपुलुन्ध्यप्रेमविह्वलाः श्रीमर्पादरजो धृत्वा प्राणां त्यक्तुं समुद्यताः ब्रह्मचारी वपुभूत्वा रामस्तत्र समागदः उवाच प्राणसम्त्यागमा कुरुत स्त्रियो वृथा वृन्दावने द्वापरान्धे भविधावो मनोरथः इत्युक्त्वा ब्रह्मचारी तु तत्रैवान्तरधीयद अथ रामो वानरेन्द्राय रावणादीन्निशाचरान् जित्वा लङ्कामेत्यसीदा पुष्पकेण पुरीम् ययौ सीतान्तत्याजराजेन्द्रो वने लोकापवादतः अहो सदाम भवनम् भूरि दुःखदम् यदा यदा करोद्यज्ञम् रामो राजीवलोचनः तदा तदा स्वर्णमयीम् सीताम् कृत्वा विधानदः यज्ञसीदासमूहो भून्मन्दिरे राघवस्य च ताश्चैतन्यघना भूत्वा रन्तुम् रामम् ता आहरा कवेशेन्द्रो नासं गृष्णामिहे हे प्रियाः ततो चुस्ता प्रेमपरामं कदम कथं चास्मान्न गृह्णासि भजन्ति मैथिली सदीः अर्धाङ्गीर्यज्ञकालेषु सददं कार्य साधनीः धर्मिष्ठस्त्वं श्रुतिधरो धर्मवद्भाषसे कथम् करं गृहीत्वा त्यजसि ततः पापमवाप्यसि श्रीराम उवाच समीचीनं वचः सत्यो युष्माभिर्गदिदं एकपत्नी व्रदोसं एकपत्नीव्रतो सं हि राजर्षि सीतयैकया तस्माद्यूयं द्वापरान्दे पुण्ये वृन्दावने वने, वने। भविष्यत करिष्यामि युष्माकं तु मनोरथम् श्रीभगवानुवाच ताव्रजेऽपि भविष्यन्ति यत्नसीताश्च गोपिकाः अन्यासां चैव गोपीनां लक्षणं शृणु तद्विधे इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे भगवद्ब्रह्मसंवादे उद्योगप्रश्नवर्णनं नाम चतुर्थोऽध्यायः ओम्